अस्य शरी रुद्राध्यायप्रश्नमहामन्त्रस्य अघोर ऋषेः अनट्टृच्छन्दः सङ्कर्षणमोद्यः स्वरूपो योऽसावादित्यः परमपुरुषः स एष देवता नमः शिवायति बीजम् शिवजरायति महादेवायति केलकम् श्रीशाम्ब परमेश्वर प्रसाद सिद्ध्यर्थे श्रीरुद्रजपे विनियोगः अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः दरिशपोर्णमासात्मने तर्जनेभ्यां नमः चातुर्मास्यात्मने मध्यमाभ्याम् बन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोवात्मने कनिष्ठिकाभ्याम् नमः सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दृशभोर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषटे निरोधव सुबन्धात्मने कवचायोऽहम् ज्योतिष्टोमात्मने नेत्रजाय वौषल सर्वकृत्वात्मने हस्त्राय भरे भूर्भवस्वरो यदिग्बन्धः ध्यानम् आपातालस्थलान्तभवन ब्रह्माण्डमा विस्फुरत् ज्योतिष्पाटिकलिङ्गमौलिविलसत्त्वो न ध्रुवान्ताहृदैः अस्तोपाप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्चपन्ने ध्याये जीप्सित सिद्धयेद्ध्रुवपदम् विप्रोभ्ये शिवम् ब्रह्माण्ड व्याप्तदेहाभसित हिवरु भासमाना कण्ठे कालाः कबर्दाः कलितशिकलाश्चण्डको दण्डहस्ताः रक्षा रुद्राक्षमाला प्रकटित विभवाः साम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रथोक्त प्रकटित विभवाः प्रयच्छन्तु सौख्यम् सञ्च मे वगजश्च मे प्रयञ्च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयजश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्रञ्च मे महश्च मे संविच्च मे धात्रञ्च मे सोश्च मे प्रसोश्च मे घृतं मे मृतञ्च मे लक्ष्मञ्च मे नाम गच्छ मे देवातुश्च मे दीर्घादित्वञ्च मे धनमित्रञ्च मे भजञ्च मे सुगञ्च मे सगनं मे शोषा च मे सुदिनं शान्तिः ॐ नमो भगवते